गरुडपुराणम् आचारकाण्डम् अध्यायम् फोर्टीन् हरिरुवाच अथ योगम् प्रवक्ष्यामि भुक्तिमुक्तिकरम् परम् ध्यायेभिः प्रोच्यते ध्येयोध्यानेन हरिरीश्वरः ततृणुष्वमकेशान सर्वपापविनाशनम् विष्णुः सर्वेश्वरो नन्दषड्भिर्भूपरिवर्जितः वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि देहि देहस्थितो नित्यसर्वदेहविवर्जितः देहधर्मविहीनश्चक्षराक्षरविवर्जितः षड्विधेषु स्थितो द्रष्टा श्रोताक्रादाह्यदिन्द्रियः तद्धर्मरहितस्रष्टा नामगोत्रविवर्जितः मन्दामनस्थितो देवो मनस्सा परिवर्जितः मनोधर्मविहीनश्च विज्ञानम् ज्ञानमेव च बौद्धा बुद्धिस्थितसाक्षी सर्वज्ञो बुद्धिवर्जितः बुद्धिधर्मविहीनश्च सर्वगतो मनः सर्वप्राणिविनिर्मुक्तप्राणधर्मविवर्जितः प्राणप्राणो महा शान्तोभयेन परिवर्जितः अहङ्कारादिहीनश्च तद्धर्मपरिवर्जितः तत्साक्षी तन्नियन्ता च जा परमानन्दरूपकः जाग्रस्वप्नसुषुप्तिस्तत्साक्षी तद्विवर्जितः तुरीयः परमोद्धादादृग्रूपो गुणवर्जितः मुक्तो बुद्धो जरो व्याभिसत्य आत्मास्म्यहम् शिवः ेवम् ये मानवविज्ञाध्यायम् दीशम् परम् पदम् प्राप्नुयुस्ते च तद्रूपम् नात्र कार्या विचारणा इति ध्यानम् समाख्यातम् तव शङ्करसुव्रत पठेद्य यत् सततम् विष्णुलोकम् स गच्छति इति श्रीगारूडे महा पुराणे आचारकांडे ध्यान नाम चतुर्दशोध्याय ओ